प्रजापतिः प्रजा सृष्ट्वा प्रेणानुप्रापिशत्ताभ्यः पुनः सम्भवितुम् नाशक्नोत् सब्रवीध्नपदितः पुनः सञ्चिनपदितम् देवाः समजिन्वन्ततो वैता समजिन्वन्तम् विद्वानग्निञ्च न रुध्ना देव कस्मैकमग्निश्चैवत्याहुरग्निवानसा ग्निश्चेयदग्निवानेव भवति कस्मैकमग्निश्चेयदगित्याहुर्देवान्दि वाग्निश्चेयते विदुरैनन्देव कस्मैकमग्निश्चैगदगित्याहुर्दृग्यसानेति वाग्निश्चेयदृग्येव भवति कस्मैकमग्निश्चेयद गित्याः पशुमानसानेति वानिश्चेयदे पशुमानेव भवति कस्मैकमग्निश्चैगदगित्या उपजीवानि धिपाग्निश्चीयते त्रयः प्राञ्चस्त्रयः प्रत्यञ्च आत्मा सत्तमये तावन्तये वैनममुष्पन्नाग उपजीवन् प्रजापज्निमजगे पृथिव्याग्रवे यज्ञञ्चक्ष्यसि सात्वाभिदश्यमानाभिश्चे भविष्यसे तथा वा अहं करिष्यामि यथा क्ष्यते इमामभ्यमृषत् प्रजापतिस्त्वाशाजय दुतगा देवदयाङ्गध्रुवासी चेति मामेवेष्टगान् कृतोपासत्ता न दिलाहाय यत्प्रत्यग्यञ्च प्रजापदिस्त्वादादय दुतया चे मदयाङ्गध्रुवासी चेति मामेवेष्टगान् ्यैवजायः ब्रमन्तर्त्वमजनिष्ठा वयं प्रजायामः प्रागच्छत्तन्त्रेण्यः सतान्जन् तत्र यत्र कुशलं चार्यः प्रैवजायते तान् रुद्रा ब्रमन् प्रयो यमजनिध्वम् यम् प्रजागामः भ्यः प्रायच्छन्तंशदस्त्यनत्रेण च शतान्य सुदं धरत्र यस्त्र किंशतं च यस्माहं भार्य प्रैवजाय देतानादित्याः ब्रुवन्तं भयं प्रजायामः प्रायच्छन्त द्वादशा्यविभरस्त्य नेण च शतान्यसुदलं भरत्रयस्त्र किंषदं च यस्माद्वादशाहम् ैव जायते तेन वैदे सहस्रमसृजन्तो कागुम् सहस्रतमे सहस्रम् वेदप्रदहस्रम् वसूनाप्नोति यजुषा वा एषा क्रियते यदुषा पच्यते यजुषा विमुच्यते यदुका वा एषैतरि यातया न पुनः प्रयुज्ये चे यक्ष्वाहिये तव यक्ष्वायुते मभूतमाजत्युकायाञ्जुहो नैवैना पुनः प्रयुङ्क्तेन यातयाम् नेयो वाग्नियोगागते युलक्तियुङ्क्ते युञ्जानेष्वग्ने यक्ष्वाहिये तव यक्ष्वा युधे यो यत्या हैनवाग्नेर्योगश्च नैवैनम् युनत्तियञ्चयम् जाने स ब्रह्मवादिना वदन्तिन्यग्निश्च उत्ताना यसाम्भारेण प्रतिमया देयते न माहुदयच्छन्ति नवर्गस्य भवति सौर्यायो चक्षुरेवास्मिन्प्रति हो विद्वे हि चक्षुरेलमान्यायहो कृष्णेवासात्रुर्व्यस्य वृङ्गरण्यमोऽर्ध्वे भवति ज्योतिर्वै हिरण्यम् ज्योतिर्वामम् ज्योतिषैवास्य ज्योतिर्वामम् वृङ्केद्वयतिर्भवति प्रतिष्ठित्यये या सन्ताज्ञरभ्यध्यायत्ताः समभवत्तस्य नेतः परापदत्तयमभवद्यद्वितीयम् परापदत्तदसा भवदयम् मे विराणसौ स्वराज्ञद्भिराजावपदधाति मे एवोपधत्ते यद्वासौ रतस्विञ्च दियतस्याजाय रेतावोढदयो वेदता भवन्ति ताग्निरत्य एवम् मे लभ्यैवजायते े स्यात् प्रथमायां तस्य चित्यातोपरि गृह्णादियं वत्सरण्यञ्चन प्रत्यवरो हेण्न प्रत्यवरोहस्तदेन त्यगं हविर्नामुपधायज्येतद्वाग्नेरस्य शीर्णमेवाग्निं च यगैवम्येन सुवर्गाय वायनश्चस्य यदयथा पूर्वं क्रियते सुवर्गमस्य तत्सु वर्ग्यश्चितिमुपथा गाभिमृशे चित्तमचित्तिञ्चनपत्ति विद्वान् पृष्ठैव बीता भत्यायते बलिञ्चरास्वालिमऋष्येत यथा पूर्वमेवैनाम्बधत्ते प्रान्त्यमेन चिनुते सुवर्ग आज के बाद दे विश्वकर्मादिशाम् पदिस्सनः पशून्पादसोन् पार्वतस्त्रै नमः प्रजापदेशादिस्सनः पशून्पादसस्मान् पार्तस्त्रै नव एता वै देवता एतेषा पशूनामधिपदयस्ताभ्यो मागे आमिष्टे यः परिषीर्षाणिपदधामुपदधाभ्य देवताभ्या ग्राम्यान नमस्करो ब्रह्मपालिनो वदन्त्यग्नो ग्राम्यान् पशून् प्रदधाय दिन्त ग्राम्येभ्यः पशुभ्य भेणजङ्कराणो मे प्रथमा स्वयमादर्णाद्वितीया प्रथमा स्वयमादर्णानुपधाय प्राणेनैव प्राणगम् समर्धय द्वितीयामुपधाय ज्ञानेनैव ज्ञानम् समर्धयत्यपादीयामुपधायानेनवापानगं समर्धयत्यथ प्राणेनैवयमादर्णानुपदधाति मे वै लोकास्पयमादर्णायताभिः खलु वैज्ञादेव प्रजापदि जाय दयदेताभिर्व्याहतेभ्य स्वयमाधर्णा उपदधा धीमानेव लोकानुपधा गीष् लोकेश्व प्रजाय न प्राणाय व्यानाय पानाय वाचेत् प्राचक्षुषे पादया देवदयाङ्ग्रुवाग्नि वै देवा सुमजिकागुंसन्ते नुवन्त स्वयमाधर्णा अपश्यन्ता दिक्षोपादश सर्वदश्चक्षुषा तु वर्गम् लोकमायनयच्छदस्तय मातृन्ना द्यक्षो बलधारि सर्वदश्चक्षुषैपदर्मिणा ग्नायाधिवेदयित्याः मग्नम् दोतम् वृणे महयित्याहोत्रैवेन वृणेतेनाग्निः समिद्धयित्याः समिन्धेवेन मग्रवपुत्राणि जङ्घनैत्याह समिद्धगेवस्मिन्निन्द्रियम् दसात्यग्ने स्तोमम् वरामहीत्याह मरुत एवेन वेतानि वाह्णागौ रूपाण्यन्वहगेवेन वागौ रूपाणि वदन्ति कस्मात् सत्या ध्यादयां नेरन्यायष्टगाययादयां नेलागं प्रणे भाग् बृहस्पत्यै प्रो यादिन्द्राग्मीदहि देवानां बृहस्पतिश्चा यादयामानान् सर्वदेहमर्चामित्वाया ृष्टभात्यात्मा वेदागम् प्राणो नृष्टस्मात् प्राणः सर्वाण्यङ्गान्यनु जलति इत्यादस्पाश्रेणं दिवश्चेत्यावरुन्धे को वाज्ञर्कोऽन्नमन्नमेवावरुन्धे जन्म देवानां विषकृष्वारोचने दिवैत्या हेमानेवा श्रीलोकान् योजपदरोधि यो वाधिष्ठकानां प्रतिष्ठां वेद प्रत्ययपतिष्ठधिगया देवदयाङ्गिरस्पध्रुवादि त्याहैषा का वालिष्टकानाम् प्रतिष्ठाय एवम् वेदप्रत्ययतिष्ठते स्वर्गाय वा येन लोकाय जीवते यदज्ञर्वज्रग एकादशिने यदज्ञामेकादशिनेयं विनयात् वज्रेणा लोकादन्तर्दध्याद्ययात् स्वरभिः पशोऽन्यर्धयेदेकयोपं विनोदनैनं वज्रेण सुवर्गाल् लोकादन्तर्दशादिनः स्वरभिः पशोऽन्यर्धयधि विवाहेन्द्रियेण वीर्येण धर्मवयाचितं ब्राह्मणाय दध्यात्ताभ्यदेव नमस्करोच्च सोताभ्यदेवात्मानन्निष्की ने रुद्रपुर तस्मै ते रुद्रे तावत्सरे नमस्करो मियत्यै रुद्रोत्तरार्धनस्तद्वाद अनुभाजते तस्मै तैरुद्रे वत्सरेण नमस्करोयत्यै रुद्रोपरिभ चेतस्मैतेद्रवत्सरेण नमस्करोमिद्रो वा तिष्ठम् वायेनकारे रेवयः पुरेश्यापि प्रविष्टाः पृथिवे मनो एतान्तमः प्रणव जीवादवे आपन्त्वाग्ने मनसापन्त्वाग्नेतपसापन्त्वाग्नेया पन्त्वाग्नौ पशद्भिरापन्त्वाग्ने सुया पन्त्वाग्ने दक्षिणाभिरापन्त्वाग्ने बहुषेनापन्त्वाग्ने वशयापन्त्वाग्नेत्याहैषा वा अग्नेराप्यस्तयैवै न आप्नोति कार्यत्रेण पुरस्तादुपतिष्ठते प्राणमेवास्मिन् तथा तुवास्मिन् तथा तृतस्थाय ज्ञायज्ञास्मिन् तथा यजापति अग्निवसृजतद्वारवन्ति यस्य वारवन् त्वेन शैति अगुरु धनश्चैतस्य चैतत्वय्यद्वारवन्ती येनोपतिष्ठते भारयत केवनाग्निश्चैतेन शैति कुरुते प्रजापदे हृदयेनापि वृक्षं प्रत्युपतिष्ठते प्रेमाणमेवास्य गच्छति प्राच्यात्वादिन्दमिना देवतयाग्ने श्रेष्णाग्ने श्रिणया दयामित्रैष्टुभेन चन्ददेन्द्रेण देवतगाग्ने पक्षेनाग्ने पक्षमुपदधामि प्रदे च त्वा सादादयामि जागतेन छन्ददा मित्रा देवतगाज्ञे पुच्छेनाज्ञपदधामिरे चाधिसा दादयाम्या नष्टुभेन पक्षेनाग्ने पक्षमुप यात्मा दिशा साधयामि महान्ते न छन्दधामि बृहस्पतिना देवतयाज्ञे पृष्ठेनाज्ञे पृष्ठमुपदधामि यो पा पाणमग्निञ्च न दे पात् त्वामुष्किल्लोके त्मा सात्मानमेवाग्निम् च न देशात्मामुष्मिल्लोके भवति एवम् ग्नमुदधया दयशयुवानामतया नाम ऋजस्यास्तेन वस्तस्यास्तो भदेवम् तो भूयास्माज्ञया तैष युवानामतया नाम ऋदस्यास्तेन वस्तस्यास्तो भदेवम् तो भूयास्तपञ्च वातेः पञ्च नमस्त्यहुदेताहुदे प्राणाक्षश्चक्षुः कर्णयो श्रोत्रं बाहुवर्बलभोरोण्यङ्गानितनोस्तवामे प्राणैत्याह प्राणाने धत्ते यो रुद्रो अग्नो यो अप्सृयो रुद्रो विश्वाहो नाविवेशस्मे रुद्रा नमो अस्वाहुदिभागा वा अन्ये रुद्राहविद्भागा अन्ये च रुद्रीलो हुत्वा गा स्त्वा रुद्रे पुरस्तात् पान्तान् दे विश्वे देवे पश्चात्पान्दुलास्तामानतारुक्त देवास्त्वेन्द्र ज्येष्ठा वरुणराजानोस्ताच्च चीनम् प्रोक्षदिगत्सञ्जितमाद्येन प्रोक्षदितेन भूतस्तेन मेभ्यस्तेन प्रोक्षितः क्षिणा धिपति रक्षिता यश्चाधिपतिर्यमस्तौ ते दृष्ट्वा यश्च नाम् अग्निम् चिदकं रक्षञ्जिदा र्यमानं च ध्यायज्ञार्यो राम्ब दक्षिणाग्राजनामश्चय राम् अष्टाग्रहास्वप्नवैभव वस्थावानो नाम स्थेदाम्बमुत्तराग्रहादाम्बरिग्रहावर्णं वैरवावस्वाय द्रव्या नामस्थवाचिवास्तेदाम्बैग्रहान्नं वैरवानिभ्यो वा नमस्ते नाम यश्च नो व्यम्बोजं वेदधा विहुदारो वा अन्ये देवादोन्य ेवो भयान् प्रेनायद्धामसुमिश्र उत्सञ्जुषस्त्वमधुमन्द्रमोर्मसु ग्निम् प्रयुज्य न विमुञ्चते यथा श्वित्वा विमुच्यमानः क्षुभ्यनुपरा भवत्येवमस्याज्ञः परा भवति परम्परा भवन्तञ्चित्वा नो क्षो भवति मग्रस्तनमोऽस्पन्दयापामित्याज्यस्य पोर्नागस्तु विमोक विमुच्यैवास्पानमपि दधा यगम् हवेजे चितो यज्ञर्वाम वाजेतमे मदः प्रेणादिहणम् वेदप्रेणादिवसीयान् भवति याज्ञेशोकर वरुणागराज्ञे कृष्णो यमागराज्ञभागराज्ञे गवयश्शाज्ञे गौरःपूर्णराजाय मर्कणः क्षिप्रशयनस्य मत्तिकालीनङ्गो कृमस्कराज्ञः पुलुङ्गन्धो शिगुं शुमार हिमवतो हस्ते त्यगोलोहनेशस्ते प्राजा सरस्वत्ये चादुश्चेता पुरुषुख्येतः पुरुषवाकारण्यो जो न कुलश्च काचे पौष्णावाचे क्रौञ्चः अपमान्नत्रे नाक्रोमगरकुलेकयस्ते कोपालस्य वाचे आखुसृजया शयण्डकस्ते मयिन्द्रामृत्यवे शो मन्यवेकुम्भेन पुष्करधातो लोहिश्रुत्कागे वासः पुरुषमृगश्चन्द्रमसे गोधाकालकालाधानस्ते वनस्पतीनामेऽन्य कृष्णो रात्रिगहक्ष्मी गाधेरण्यम्णे धातुः कर्कणः ौरे वराकश्चो मयूरशैलस्ते गन्धर्वाणाम् वसूनाम् कपिञ्चलो रुद्राणान्तित्यले लो हित्कुण्डराजे गोलप्पि गाता अक्षरसामरण्यायसुर्मलः वेयेष्वेव पित्वान्यम् गस्तेऽनुमत्या अन्यपापोधमासानाम् मासाम् कस्य वक्वयः पुटरुद्धा जौहस्तेऽधिने भाल्येभृहस्तृषित्पुटः स्तेणामृतोपिकाते शरव्याये हरिणो मारुक्षम्भस्तैतरजनामग्नूक्ष्णा अरजान्दलक्षमुद्रा मध्यः प्लवस्ते वामनिन्द्रेहकं ससा चेन्द्रान्ये केध्यति कक्षेस्ते धृ स्वामिन सुपर्णः पाहकंसावृकापशतकंसस्त ऐन्द्रा अपामुद्रा गोपालस्य महेन्द्राय कामाय परस्मा आज्ञेयः कृष्णग्रेवः सारस्वती वैदेवभ्रः सौम्यः पौष्णश्यामस्यति अश्वस्थोपरोगो मृगश्चेत् प्राजावत्या आदेवौ रात्रौ लोमधुसक्थौ पृष्ठौत्यौ धात्रे पृष्ठो दरः सौर्यो भलक्षःपे अज्ञयनीगवदेवो हिताञ्जनड्वानधोरामोधामित्रौ बहुष्णौ रजनलाभी वैश्वदेवो भुजङ्गौतो परो मारुदः कल्मायाग्नेयः कृष्णोजः सारस्वती मे जीवरुणः कृष्णयशजिपात्पे त्वः ओह्माश्रुजयपावगाया सुजातः कश्च भो यास्मिन्द्रः अग्न्यया गर्भन्तस्तानावश्यज्ञस्यो न भवन्तो यासांराजा वरुणोगाजिमध्ये सत्यापश्यञ्जनानाम् अधश्चिश्रियोगाः पावकास्तानावश्यज्ञस्यो न भवन्तो या सा कृन्ति भक्षय्या अन्तरिक्षे बहुधा भवन्ति ृथिवेय सौन्द्यशुक्रास्तानः वश्यज्ञस्यो नाभवन्तो हिरेण माचक्षुषा पश्यतापशिवया तनुवोमस्पृशतत्त्वजम् मे सर्वागुम् अग्ने गौरः स्पृशतो हुमे वोमयवचोमनवोजो निधत्ता यततः सम्प्रयते न हावनदताहते तस्पादानद्यो नाम स्थतामो नामा निषिन्धवः यत् ते नारुणेन श्रीभगम् समवल्गता तदा आप्नो इन्द्रो मो यस्तस्मादापो अनुस्थः अपगामग्र्यन्दवरम् एको देवो अपेष्ठस्यन्दमाना यथा वशम् उदानिर्महे तस्मादृमुच्यते आपो भद्रा कृतमितापासुरग्ने पयिताः सदा प्राणेन सह वर्चसा गण् आयत्वश्याम् मितवासुरोम्या वा घोषो गच्छति वाङ्नासाम् अमृतस्कतरि ह्यवर्णा अधुपय नावः आबोधिष्ठावमस्तानपूर्जे तथा महेरणाय चक्षसे योगशिवतबोधशस्तस्य भाजे चेहणः उशतेदिवमातरः तस्मारङ्गमामबोयस्य क्षया यजिन्वथा आपो जनेथा जनः यजश्रयस्वान्तरेक्षय यदस्व पृथिव्यासम्भव ब्रह्मवर्तथपशद्ब्रह्मवर्त्यथा गत्वा गृह्णावराजसूय ग्रहासोग्रवर्णसमो राजसूयमग्नि समश्चेत्यस्ताभ्यामेव सूचयते भावेव लोकामभिजयश्च राजसूयेन जानश्चयश्चापभवन्त्यापो वाग्नेभ्रातयायधपोऽधस्तादप तथा जभ्रातं भवत्यात्मना स्य भ्रातुर्य भवत्यं वा आपस्तस्मादभ्यवदान्तमभिषन्ति नार्पिमार्च्छति धर्मयश्रेता उपधीयन्ते यौचैना एवं वेदान्नं वा आपः पशव आपोऽन्नं पशवान्नादः पशमान्भव यस्येता एवं वेद द्वादश भवन्त्यवादशमासाः संवत्सरेण अन्नव वरुन्धे पात्राणि भवन्ति पात्रे वा अन्नमद्य देशयोन्येवान्नवृन्ध आद्वादशात् पुरुषादन्न मध्योपात् प्राचिषिद्य देयस्यैता उपधीयन्ते यौ उजैना एवं वेद कुम्भाश्च कुम्भेश्च मिथुनानि भवन्ति मिथुनस्य प्रजा ये प्रजगामर्मिथुनैर्द्याय देयस्यैता उपधीयन्ते यौ जैना ुचार्पयति यदपवदधानिवास्य पर्यन्नयजमानशाम्यन्त्य प्रजा यत्रेतानुपधीयन्तेवाम्बा गेतानि हृदया न यदेता आपो यदेता अपवपदधानि दिव्याभिरेवैना सगं हृदिवर्षकः पर्यन्या भवति य कल्पते स्मानुजेतमुपदधात्ये वा येधागत्य कल्पते स्मै द्वन्दस्व मध्ये धृत्यागायुर्य साक्षादेवा स्वान्नमवरुन्धे मध्यद उपदधादि मध्यदेव स्वान्नं ृहस्पत्यो भवतिर्ब्रह्म वैदेवानाम् बृहस्पतिर्बृह्मणैवास्पाण्णमगन्धे ब्रह्मवर्च्रह्मवर्त्यसायस्पे ब्रह्मवर्तते भवति यस्पे चौभीयते यौ जैनमेवम् वेदा भूतेष्टका उपदधात्र वै मृत्युर्जायते यत्र यत्रैव मृत्युर्जायते तद एवै नमभैजते तस्मादग्नियच्छमाये यस्य मृत्यभो वेष्टास्तस्मादग्नियन्नाभिजितमेव प्रत्यगे नमभिस्तृ सूयदेवाघे देव समावेतानि हवे गुण् भवन्त्येतावन्तो मे देवानागुङ् समास्तरे न् प्रयच्छन्ति तकेन कुं शुभन्ते समाग्ण ्रह्मसमश्चेत्य देवस्यपादमिदः प्रसवयत्याभरमिदप्रसोदेवैनं ब्रह्मणा देवताभिरभिजत्यन्नस्यान्नस्याभिजञ्जत्यन्नस्यान्नस्यावध्ये पुरस्तात् प्रत्यन्तमभिषुञ्जति पुरस्ताद्धेजेन मुखतगेवास्मान्नाद्य स्वादां राज्येनाभिरुञ्जामेत्याहिषाग्ने समस्ते नैवेन अभिरुञ्जति बृहस्पदे स्वादां राज्येनाभिरुञ्जामेत्याह ब्रह्म मे देवानां बृहस्पदे ब्रह्म देवेनजतेन्द्रस्य द्वादां राज्येनाभिरुञ्जामेत्याहेन्द्रियमेवास्मिन्नुपरिष्टाद्दधा तेजद्वै राजसो यश्च एवम् विद्वानग्निञ्चन तुभावेव लोकाभिजयश्च राजसूर्येण जानस्य यश्चाग्निषदैन्द्रस्य सुगपानस्य दशेन्द्रियम् वेद्यम् परापदत्तद्देवासौ प्रामण्या समभरान् सूर्यदेवावेशिञ्चिदय किञ्चित्त्वासौ प्रामण्या विजयतेन्द्रियमेव वेद्यगम् सम्भृत्या त्वम् सजोरब्धो यामभिस्तजोरुषारुणेभिस्तजो सोर्यगेदशेन सजोजा अश्विनाथ किं स्वाभिस्तजोराज्ञा निताभिर्भृतेण स्वाहा संवत्सरो वा अब्धो वा सा अजावा वुषारुणे सूर्यगेदश गिरे अश्विना संवत्सरोज्ञयेष्मा नरः पशवयिना पशवोऽम् संवत्सरम् पशवा न प्रजायन्ते संवत्सरेणैवास्मे पशव ैव जायन्नादो भवति यस्यैव प्रीणाच्यथो चक्षुर्देवाग्ने पुरस्तात्प्रजिधाच्यन्धा भवति एवं वेदा भो वाय प्रजापतिः पुष्करवर्णे प्रतिष्ठान् नाविन्देतदपान् कुरायिमचिय भवत्र गोमेद प्रत्युपादधात् तच्छिदवत्सा प्राजेरिज्ञान् दक्षिणत उपादधात् स दक्षिणपक्ष भवत्सा दक्षिणादिज्ञाम् पश्चादुपादधात् तत्समभवत्सा प्रजेजेरिज्ञामुत्तरत ष्टादपादथाग्नेयो णस्तस्मात् ब्राह्मणाय सर्वार्थ स्वामेव अग्नि शमन्मेन्द्रस्पादाग्र्युका स्वामेव तद्व्योनिम् प्रविशन्ति संवत्सर मुख्यम् हृत्वा द्वितीये संवत्सराज्ञेयमष्टाकपालम् गर्वभेदैन्द्रमेकादशकपालम् वैश्वरेव शकपालम् बालहस्तत्यञ्चलम् वै ैष्ठमन्त्रकपालं तृतीयष्टाकपाल भवत्यष्टाक्षरा गायत्र्याङ्गायत्रं प्रादस्सवनं प्रादस्सवनेव तेनदाधार गायत्रे छन्दो एकादशकपाल भवत्येकादशाक्षरात्मं माध्यन्दिनगं ेवैश्वदेवं जागतं तृतीयस वनं तृतीयस वनमेव तेन दाधालजेच्छन्दो विद्वात्यश्चतुर्भवते ब्रह्म वै देवानां बृहस्प ब्रह्मैव तेन दाधारयद्वये कवस्तिकपाल भवति यज्ञमेवश्वरयज्ञमेव तेन दाधारयेन वत्सरेभिर्ति यत्संवत्सर मुख्यं विभद्दीमेव तेन व्यस्प्रणादि तेन स्पृणोतु यत्सरे यज केवमेव तेन लोकव्यस्पृणोतं यशस्त्रो वेदे सहस्रकं सहस्रं पुत्रा न गच्छति एवम् विद्वानेत्रमण्यम् च प्रजापतिरग्निमचक्षुदभ्यो त्वादिष्ठत्तम् देवाभिभ्यतो नोपायन्ते छन्दोभिराणम् चादयित्वोपायन्तच्छन्दसान्दस्तम् ब्रह्म वै छन्दाकुंजग् ब्रह्मण एतद्रोपञ्च कृष्णाजकानः उपमुञ्चते छन्दोभिरेवा बाणम् चादयित्वाज्ञमुपजरत्यात्मलोहिकम् सागे देवनिधर्वागे धीयते क्तं विन्दं दिन वा प्रधिप्रजाना क्रामत्यात्मानमेवाधिपादेव गोत्या असौ खल्वा क्रम्युखायधात्या असौ यथा भ्रूजादे गोपायेधितादृगेव प्रजापचर्वा ैव सभ्यङ्गाधर्वणस्तस्य प्रकाश्चाङ्गेतकं हवादर्शिरभ्युष्प्रकाभिरग्निंजिनोजितात्मानमेवके भवति यं वेद शरीरं वा यतदग्ने यच्चिच्च एतद्देवानस्सर्गस्कुरुते यदग्नियच्च देवैश्वानरं शरीरमेव सर्गस्कृत्यात्मनाभ्यारो तस्मात्तस्य नापद्यन्त्येवन्मेव देवानव्यजि वैश्वानर्यच्चापुरेढमुपजधातेयं वैश्वानरस्तस्यैर्यत्पुरेण अग्निमेव वैवेश्वानरञ्जनुवान् यद्वैष् नरः प्रियामेवास्य तनुमवरुन्धे ग्ने रुवेक्षया देवा विराजमाप्नवञ्जि स्वरात्रेक्षितृपदा विराट् विराजमाप्नोति षड्डा त्रेर्देक्षित स्यात् षड्वाः संवत्सरः संवत्सरो विराट् विराजमाप्नोति दशरात्रे अद्यक्षितस्या दसा क्षरा विरान् विराजमाप्नोति समाधा सम्वत्सर सम्वत्सरो ज्ञान विराजमाप्नो त्रयोदशरात्रे त्रयोदश समाधा ज्ञान जमाप्नोति पञ्चदशायदे फिलस्यात् पञ्चदशमासश्चात्रयोऽर्थमाशः संवत्सरः संवत्सरो विलट् विराजमाप्नोति सप्तदशस्याद्वादशमासा पञ्चर्थवस्त्रसंवत्सरः संवत्सरो विलट् विराजमाप्नोति चतुर्विंशति चतुर्विंशचमासा संवत्सरो विराट् विराजमाप्नो यत्रे क्षिदस्यादक्षराट् विराजमाप्नो यान्दे क्षिरस्याद्योत्सरस्संवत्सरो विराड् विराजमाप्नो ृष्ट्वान्ते भृत्वाग्स्याहो रात्राणेष्टगमेन व्यावृतमेव गच्छ Tecumza-na-na-na-na <laughs>